पञ्चाशः सर्गः वज्रदम्ष्ट्रम्हतम् श्रुत्वा वालिपुत्रेण रावणः बलाध्यक्षमुवाचेदम् कृताञ्जलिमुपस्थितम् शीघ्रम् निर्याम् तु दुर्धर्षा राक्षसा भीमविक्रमाः अकम्पनम् पुरस्कृत्य सर्वशस्त्रास्त्रकोविदम् एष शास्ता चा भूतिकामश्च मे नित्यम् नित्यम् च समरप्रियः एष जेष्यति काकुत्स्थौ सुग्रीवम् च महाबलम् वानरांश्चापरान् घोरान् हनिष्यति न संशयः परिगृत्य सतामाज्ञाम् रावणस्य महाबलः बलम् सम्प्रेरयामास तदा लघुपराक्रमः ततो नानाप्रहरणाभीमाक्षाभीमदर्शनाः निष्पेतो राक्षसा मुख्या बलाध्यक्ष प्रचोदिता रथमास्थाय विपुलम् तप्तकाञ्चन मेघाभो मेघवर्णश्च मेघस्वनमहास्वनः राक्षसैः संवृतो घोरैस्तदा निर्यात्यकम्पनः न हि महामृधे अकम्पनस्ततस्तेषामादित्य तस्य निर्धावमानस्य संरब्धस्य युयुत्सया अकस्माद्दैन्यमागच्छद्धयानाम् रथवाहिना व्यस्फुरन्नयनम् चास्य सव्यम् युद्धाभिनन्दिनः विवर्णो मुखवर्णश्च गद्गदश्चाभवत्स्वनः अभवत्सु दिने काले दुर्दिनम् रूक्षमारुतम् ऊचुः खगमृगाः सर्वे वाचः क्रूरा भयावहाः सिंहोपचितस्कन्धः शार्दूलसमविक्रमः तानुत्पाता न चिन्त्यैव निर्जगामरणाजिरम् तथा निर्गच्छतस्तस्य रक्षसः सह राक्षसैः बभूवसु महान्नादः क्षोभयन्निवसागरम् तेषाम् युद्धं महारौद्रम् सञ्जज्ञे कपि रक्षसा राम रावणयोरर्थे समभित्यक्तदेहिनः सर्वे ह्यतिबलाः शूराः सर्वे पर्वतसन्निभाः हरयोराक्षसाश्चैव परस्परजिघांसया तेषाम् विनर्दताम् शब्दः संयुगे च शुश्रुवे सु महान् कोपादन्योन्यमभिगर्जत रजश्चारुणवर्णाभम् सुभीमभवद्भृशम् उद्धृतम् हरिरक्षोभिः उद्धृतं दिशो दशा अन्योन्यम् रजसातेन कौशेयोद्धतपाण्डुना संवृतानि च भूतानि ददृशुर्नरणाजिरे न ध्वजो न पताका वा चर्म वा तुरगोऽपि वा आयुधम् स्यन्दनो वापि ददृशे तेन रेणुना शब्दश्च सुमहांस्तेषाम् नर्दतामभिधावताम् श्रूयते तु मुलो युद्धे नरूपाणि चकाशिरे हरीनेव सुसंवृष्टा हरयो जग्नुराहवे राक्षसा राक्षसांश्चापि निजघ्नुस्तिमिरेतदा ते रुधिरार्द्राम् तदा चक्रुर्महीम् पङ्कानुलेपनाम् ततस्तु रुधिरौघेण सिक्तम् ह्यपगतम् रजः शरीरशव सङ्कीर्णा बभूवचव सुन्धरा द्रुमशक्तिगदाप्रासैः शिलापरिघतो वरैः राक्षसा हरयस्तूर्णम् हरयो भीमकर्माणो राक्षसान् जघ्नुराहवे राक्षसास्त्वभि सङ्क्रुद्धाः प्रासतो मरपाणयः कपीन्निजघ्निरेतत्र शस्त्रैः परमदारुणैः अकम्पनः सु सङ्क्रुद्धो राक्षसानाम् च मूपतिः संहर्षयति तान् राक्षसान् भीमविक्रमान् हरयः स्वपि रक्षांसि महाद्रुममहाश्मभिः विदारयन्त्यभिक्रम्य शस्त्राण्याच्छिद्यवीर्यतः एतस्मिन्नन्तरे वीरा हरयः कुमुदो नलः मैन्दश्च द्विविदः क्रुद्धाश्चक्रुर्वेगमनुत्तमम् ते तु ूराक्षसान् सर्वे नानाप्रारणैर्भृशम् इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चपञ्चाशः